द्वादशोऽध्यायः युरोप्देशेषु काङ्क्षितं स्वामिवर्येण लण्डन्नगरदर्शनं वेदान्तस्य प्रचारं तु तत्र कर्तुं श्रेष्टवान् मिल्लर् नामकुमार्यास एतदर्थं निमन्त्रितः वस्तुं सोऽभ्यर्थितः स्टी नाम मित्रस्य वेश्मनी पारीसनगरमागन्तुम् अन्नमित्रेण याचितः देव्याह्वानमिदं सर्वम् इति स्वामी व्यभावयत् मित्रेण सह स आदौ पारिसीतिस्थलं प्रमुखप्रतिष्ठानानि तत्रत्यानि स दृष्टवान् ऐरोपीयजनानां च संस्कृत्या केन्द्रमस्ति तत् जातपरिचितसोऽपि व्युत्पन्नैर्बहुभिः सह ततः परं स्वामिवर्यो लण्डन्नगरमागतः विचारसङ्कुलैस्तस्य नाणसम्मथितं तदा आङ्ग्लेयानामधिवासदेश आसीत्तु भारतं विषये हिन्दुधर्मस्य विमूढबुद्धयो हि ते एवं सति कथं तत्र स्वाभिनः स्वागतं भवेत् ईदृशसंशयस्तस्य शीघ्रं दूरीकृतोऽभवत् प्रथमं भाषणं तस्य श्रोतुं बहवो मानुषा आगता विविधा विद्वन् जनास्ते स्वभवन्नपि स्वामिनां विषये वार्ताः पत्रिकासु प्रकाशिता नैकविद्यार्थिनस्तस्य वर्गे सन्निहितास्तथा नोबल। मार्गरट् नोबल् नामकन्याप्यवर्तत निवेदिता चेति नाम्ना विसृता सा ततः परम् अध्यापने समाजस्य क्षेमसम्बन्धवृत्तिषु तथा बौद्धिककार्येषु निरता सा निरन्तरम् स्वामिवर्यस्य भिष्यत्वम् भावि जीवने, भाविजीवने आनयन् निश्चयेनैव विशिष्टं परिवर्तनं लंडन लण्डन्नगरवासस्तु स्वामिनो शप्लकालिकः मासद्वये व्यतीते स न्यूयार्कं पुनरागतः आङ्ग्लेयकर्म किमपि नैवोपक्रमते द्रुतं यद्यारभतपश्चात् समध्ये नैव त्यजेदपि अमेरिकाजना सन्ति सवेगा ननु किन्तु ते स्वयं विनष्टुं सन्नद्धा अग्निलग्न पलालभत इत्येवंविधवाक्यानि स्वामिवर्यकदाचन भारतस्थितशिष्याय कस्मै च न लिलेखच वर्गचालनमिङ्मिण्डङ्लं दन्ददेशे तस्मिन् गते सति ट्री नाम श्रीद्वारा सादित्येवं आसीत् तथैव निहितं न्यूयार्क्नगरे शपि वर्गस्य चालनं शिष्यै यदा स्वाम्यनुपस्थितः न्यूयार्क्नगरं स्वामी यदा यात पुनश्च स स्वस्य कर्मणि भूयोऽपि सपदि स्वं न उद्यस्याध्यात्मविषयान् पाषणस्य परम्परा पिता च ग्रन्थरूपेण तत्सर्वं तु प्रकाशितम् कर्मयोग इति प्रोक्तं पुस्तकं तस्तु निश्चितं तस्योत्तमपुस्तकानाम् एकमिति निरूप्यते स्वामिनो भाषणं सर्वं संक्षिप्तलिपिकारिणा लिख्यते चेद्वरं चेति तस्य शिष्यैर्विचिन्ति सौभाग्याद्गुड्विनि इत्याख्यलिपिकारसुसेवनं सन्नद्धो भूदर्पयितुं विना किमपि वेतनम् सो भव स्वामिन शिष्यो लग्नो भूत्वा स्वकर्मणि यत्र यत्र गुरुयातो गतः सर्वत्र तदृश यद्यापि ग्रन्थरूपेण स्वामिन श्रेष्ठभाषणं लभ्यते सर्वमित्येतगुण्डिनं कर्मणा खलु न्यूयार्क्नगरे स्वामी नानास्थाने सुभाषणं कृतवान् तथैव वर्गानां विविधाश्च चकारश्च न्यूयार्कनगरे स्वस्य कर्म सम्पूरयन् गतः डेट्रो यद्वत्तनं स्वामी गुड्वेन तमुनि तमनुयातवान् समाचरतु स तत्रापि भाषणं वर्गचालनम् एतयोर्विषयो जातो भक्तिरेव च सर्वदा तदा तस्य मुखे काचित् ऐश्वरोन्माद इक्षितः मातृभक्तिप्रभावेण तस्य चित्तं विजृम्भितम् तस्यान्त्यभाषणं तत्र विहितं स्वामिना यदा मन्त्रै वशीकृता जाताः श्रोतार इव लक्षितम् स्वामी किन्तु पारिश्रान्त एतस्मिन् समये भृशम् स्वकीयान्तिम् अवर्षाळि प्रचलन्तीति तन्मतिः अस्मिन् कालावधौ तेन प्रोक्तमासीत् अहो शरीरं भवति भीषणं बन्धनं खलु तयं गोपयतुं शश्वत् स्वामिवर्येण वाञ्छितम् एवं सत्यपि भाषणे वर्गचालरे विश्वविद्यालये हर्वा नाम्नि तेन ना प्रभाषणम् वेदान्ततत्त्वसम्बद्धम् विहितं बहुविश्रुतम् पौरस्तत्तत्वतन्शास्त्रस्य पीठं तत्प्रतिष्ठानतः प्रदत्तं स्वामिने किन्तु स्वीकृतं न हि तेन तत् कोलम्ब्या अप्येवं समजायत सन्न्यासी इदं सर्वं स्वीकर्तुं विमुखोऽभवत् वेदान्तपरिसत्तेन शिष्टा नियोर्कपत्तरे पर्वपाश्चात्यसम्पर्कं तद्द्वारा सव्यभाव्यवभावयत् सार्वलौकिकधर्मश्च सहनक्षमता तथा तस्य लक्ष्यं भवेदेवं भवे स्वामिवर्येण चिन्तितं नानायोगान् प्रति स्वामी वर्योलिखितवानपि पुस्तकानि विविधानि जानिकीर्तिममाप्नुवन् एड्लङ्ग्लण्ड् राज्यं भूयोऽपि समगान् गन्तुं समागन्तुं निमन् निमन्त्रितः विवेकानन्दवर्यस्तु शिष्यैतद्देशवासिभिः लब्धानि नैकपत्राणि स्वामिना भारतादपि स्वदेशं प्रति गच्छेत् स इति शिष्यै स याचितः यावत् शीघ्रं स आगच्छेद्यति तान् प्रत्युवाच स पुनश्च लण्डननगरं गतः स्वामी ततः परं समारेभिः स भूयोऽपि निजाध्यात्मप्रवर्तनं भाषणं ज्ञानविषये स्वामिना बहुशः कृतं भाषणेषु च वर्गेषु यत्किञ्चित् सूचितम् श्रीरामकृष्णदेवस्य मुखादेवसप्तवान् नैकविद्वज्जनैः स्वामी वर्यपरिचितोऽभवत् अतिप्रधान एतेषु मार्क्समोलर् नामपण्डितः भारतीयविषयेषु संस्कृते च सततःपर केशवचन्द्रसेनात् श्रीरामकृष्णं विवेद सः श्रीरामकृष्णदेवस्य भक्तः स ज्ञातुमिष्टवान् गुरुं प्रतिस्वामिवर्यादविशेषानधिकाधिकान् जीवनं गुरुदेवस्य तथा तद्वचनान्यपि विषयीकृत्य लिखितं मुलर्वले वर्येण पुस्तकं गुड्बिन् इष्टर्जि तथा नोबल् हे त्रेष्ठा मुलरादय सर्वे स्वामिनः श्रुद आदौ शिष्यास्ततः परम् अस्मिन् सङ्घे प्रविष्टौ च सेवीयर् स्वामिनश्चापि शिष्याणां मध्ये बन्धो दृढीकृतः भारतस्थितशिष्येभ्यः स्वामिवर्यो न पूर्वशः अप्रेषयच्च पत्राणि निर्देशान् विविधान् ददन् परिक्लान्तो भवत्स्वामि स्वामी नितान्तश्रमहेतुना श्री श्रीक्षर्लाण्डप्रदेशं स विश्रमार्थमतो गतः तस्यानुगमनं मित्रत्रयेण विहितं ह्यपि आल्पसैलो यदा दृष्ट स्वामी प्रमिदतोऽभवत् तदानीं तस्य हृदये कश्चित् सङ्कल्प उद्गतः मठ एकस्थापनीय हिमालये गिराविति पर्वपाश्चात्यशिष्याणां मेलनं तत्र सम्भवेद् अभिनन्दितमेतत्तु तदीयसहगामिभिः सेव्यर् दम्पतिद्वारा पश्चाद् एतत्तु साधितम् मायावतीमठस्थाभ्यां स्थापितश्च हिमालये आप्सैले यदा स्वामी भ्रमन्नासीत् स लब्धवान् आह्वानं दाप्सनीत्याख्य तत्त्वज्ञानविशारदाम् एतन्निमन्त्रणं स्वीकृत्य गतवानपि जेर्वणीयप्रदेशस्थं केलित्यभिहितं स्थलं तद्देशभौतिकैश्वर्यं विशिष्टं संस्कृतं शपि यात्रा मध्ये सम्यक्ष विस्मयस्तिमिभवत् दाप्सन्वर्यो बभूव च संस्कृत ग्यस्तथैव स तद्भाषायां करोति स्म वार्तालापं श्रमं विना डाप्सञ्च स्वामिवर्यस्य वेदान्तविषये बहू तथैव योगविषयं कृतवन्तौ विचारणं डाप्सन् वर्येण सहितं स्वामिना भ्रमणं कृतम् युरोपस्थप्रदेशेषु विविधेषु स्थलेषु च स्वामिवर्यस्तथा तस्य मित्राण्यपि ततः परं समाप्य दीर्घसञ्चारं लण्डन्नगरमागताः अड्यङ् अड्यग्लण्डदेशे भूयोऽपि सामासो स्वामीनिवास च कुर्वन् प्रभाषणं पश्यन् प्रधानमानवान् तथा विहितं तेन तत्काले मायाविषयभाषणं प्रभावस्तस्य शब्दानाम् अभवद् विस्मयावह सकलास्तस्य भाषणेन वशीकृताः विकारविवशा जाताः केचिद्बाष्पाकुलास्तथा विवेकानन्दपादेन वेदान्तविषये बहुभाषणं यत् कृतं तत्तु विशिष्टं पण्डितोचितम् सतिर्ध्य स्वामिनेको य अस्मिन् अवसरे सोऽपि लण्डन्नगरमागतः विवेकानन्दवर्यस्तु नितरां मुदितोऽभवत् मत्वा यत् स्वसहाय स्याद्विदेशे निजकर्मणि इतरो हि सतीर्थस्तु शारदानन्दसङ्गितः दिवसेभ्यः कतिभ्यश्च पूर्वं लंडन समागतः आसीत् सः गतवानेव न्यूयार्क् नगरं प्रति यत्कर्मस्वामिनारब्धं तत्करोति स्म तत्र सः केभ्यश्चिद् दिवि दिवसेभ्यः स कुर्वन्नासीद् वासं संविदेशे शम्पूर्य गच्छेदिति स भारतम् अन्ततसेवीयर्वर्यम् आदिशस्सविधीयतां व्यवस्थातस्य यात्रार्थं पोतेन भारतं प्रति एतत्तो विहितं सावि सेवीयर्दम्पती तथा गुर्बिन्वर्यस्य यच्छेयोर् भार्दतं चेति निश्चितं मिल्लर्णोल्बल्कुमार्योतु गच्छेतां तदनन्तरम् इत्येतन्निपुणयाश्चापि तस्मिन् अवसरे कृतः आङ्ग्लेयम् आङ्ग्लेयमित्रसङ्घेन शिष्यैराराधकैस्तथा आमन्त्रणस्य मेलाया संविधा सकला कृता वियोगिव्याकुलाः सर्वे सदस्या मेलने भवन् बाष्पार्द्रना केचि सभावासिनरीक्षिताः दयं मिलामं भूयोऽपि वदन्यते पुनः पुनः स्वामिवर्यसदस्यानां मध्ये विचरति स्म च संवत्सरत्रयं स्वामी विदेशे न्यवसत्ततः शिष्यैः सह समारेभे प्रयाणं भारतं प्रति यत्कर्मलण्डन् नगरे स्वामिना क्रियते स्म अभेदानन्दवर्येण साधयेदिति निश्चितम् आसीत् पोताश योदेऽपि स इत्येवं सङ्गीते स्थले स्वामी प्रदेशा विविधाश्चैव मार्गमध्ये विलोकिताः गतश प्रथितं रोमा नामस्थानं विशेषतः आभू स क्रिस्तमस चेति क्रिस्तल् देवभक्त्या प्रपूरितम् अन्ततपोतयात्रांश आरेभि प्रति वर्षत्रयात् परमेव देशं गच्छति स्म सः द्विवारमितयात्रायां स्वामीवर्यस्य मानसं स्मृतिर्भिर्भूतकालस्य परिपूर्णम् अजायत अमेरिकां च आयातो भक्त्याज्ञातस्य निर्धनः विसृतो वीरपुरुषः प्रतियातो यदा सच भारतस्य दरिद्रेभ्य सम्पदैश्वर्यमर्जितुं संवत्सरत्रयात् पूर्वं प्रयातो मेरिकां स च अध्यात्मज्ञानम् अस्माकं तद्देशायार्पयेत्स च धनं साङ्केतकज्ञानं तस्माद्भारतमाप्नुयात् विदेशयात्रावसरे स्वामिवर्यस्य मानसे उपर्युक्तविधा चिन्ता प्रत्याशाभरिताशिता पाश्चात्यजनतायै स ज्ञानमाध्यात्मिकं ददौ विज्ञानं भौतिकं यद्वा वृत्तं लब्धं न सत्वरं तथापि स्वामिवर्यस्य निदेशाटनहेतुना सञ्जाता तत्र भक्तिश्च हितेच्छा भारतं प्रति फलमेतस्य सर्वस्य विद्रुतं न विलोकितं दृश्यते परिणामोऽद्य नोनं सर्वत्र